गरुडपुराणम् ब्रह्मकाण्डम् मोक्षकाण्डम् अध्यायम् वन् श्रीगणेशाय नमः श्रीलक्ष्मीनृसिंहाय नमः श्रीदत्तात्रेयाय नमः श्रीवेदव्यासाय नमः श्रीहयग्रीवाय नमः अधकारूढे ब्रह्मकाण्डस्तृतीय आरभ्यते ॐ मल्लानामशनिरृणाम् नरवरस्त्रीणाम् स्मरो मूर्तिमान् गोपानां स्वजनो सदां क्षुधिभृताम् शस्तास्वपित्रो शिशुः मृत्युर्भोजपदेर् धादृविहितस्तत्त्वं परं योगिनां वृष्णीनां च पदि सदैव शुशुभे रङ्गेच्युदस्साग्रजः नमो नारायणा यदि तस्मै वै मूलरूपिणे नमस्कृत्य प्रवक्ष्यामि नारायण कथामिमाम् शौनकाद्या महात्मानो शर्षयो ब्रह्मवादिनः नैमि शाक्ये महापुण्ये तपस्ते पुर्महत्तरम् जितेन्द्रिया जिदाहाराः सन्दः सत्यपरायणाः यजन्तः परया भक्रिया विष्णुमाद्यम् जगद्गुरुम् गृणन्दपरमम् ब्रह्म जगच्चक्षुर्महौजसः सर्वशास्त्रार्थतत्त्वज्ञास्ते पुर्नैमिषकानने यज्ञैर्यज्ञपतिं केचिज्ञानैर्ज्ञानात्मकम् परं केचित्परमया भक्रिया नारायण मपूजयन् ये कादुमहात्मानः समाजम् चक्रुरुत्तमाः धर्मार्थकाममोक्षाणामुपायं ज्ञातुमिच्छवः षड्विंशतिसहस्राणि मुनीनामूर्ध्वरेतसाम् तेषाम् शिष्यप्रशिष्याणाम् सङ्ख्यावक्तुम् न शङ्क्यते मुनयो भावता मिलितास्ते महोजस लोकानुग्रहकर्दारो वीरगा विमत्सरा कथम हरौ सकलं भक्तिरव्यचारिणी कर्मन इत्येवम् प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः साञ्जलिर्वाक्यमाह स्म विनया वनद सुधीः शौनक उवाच आस्ते सिद्धाश्रमे पुण्ये सूदपौराणिकोत्तमः स एतदखिलम् वेत्तिव्यासशिष्यो यदीश्वरः तस्मात् तमेव पृच्छाम इत्येवं शौनको मुनिः अध ते ऋषयो जग्मुपुण्यं सिद्धाश्रमं तदः पप्रच्युष्टे सुखसीनं नैमिशारण्यवासिनः ऋषय ऊचुः वयम् त्वदिधयप्राप्तास्त्वाधिधेयोऽसि सुव्रत स्नानदानोपचारेण पूजयित्वा यथाविधि केन विष्णुप्रसन्नः स्यात् सकथं पूज्यते नरैः मुक्तिसाधनभूतं च ब्रूहि तत्त्वविनिर्णयं सूद उवाच शृणुध्वमृषय सर्वे हरिं तत्त्वविनिर्णयं नत्वा विष्णुं श्रियं वायुं भारतीं शेषसंज्ञकं द्वैपायनं गुरुं कृष्णं प्रवक्ष्यामि यथामधि नास्ति नारायणसमं न भूतं न भविष्यति येन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् शौनक उवाच किमर्थम् न मनम् विष्णोर्ग्रन्थादौ मुनिसत्तमा कर्तव्यम् ब्रूहि मे ब्रह्मन् कृपया मम सुव्रता तदश्रियम् तदो वायुं भारतीम् च ततः परम् अन्धे व्यासं नमस्कृतवानसि सुदसूदमहाभागब्रूहिकारणमत्र च सुद उवाच आदौ वन्द्य सर्वे आदौ वन्द्य सर्ववेदैकवेद्यो वेदे शास्त्रे पुराणे सत्ताम् प्रायो विष्णुरेवैक येव प्रकाशते दो नम्य एको हरिर्हि सर्वत्र मुख्यस्त्वधिकोऽन्यतोऽपि स एव नम्यो न च शङ्कराद्याः नमन्ति ये तु विनायकं चण्डिकां रेणुकायां तथा सूर्यं भैरवम् मातरश्वतथा वाणीम् गिरिजाम् वैश्रियम् च सर्वेऽपि वैष्णवा नैव लोके न वेदिचार्या वदन्ति न पार्थिक्यान्नमनम् कार्यमेव प्रीणन्ति पूजां गृहीत्वा देवताश्चैव सर्वा किञ्चित् दत्त्वा भलदानेन दांश्च सन्दर्प्य तुष्टैस्वमनोनुसाराक्तैकारितां काम्य पूजां तथैव निवेदयित्वा परदेवतायां विष्णौ हरौ श्री पुरुषादिवन्द्ये इहा परत्रापि सुखेतराणि दास्यन्ति पश्चादधरं दा वैतमश्च अदोख्येदेनैव पूज्याननम्या मोक्षेच्छुभिर्ब्राह्मणाद्यैर्द्विजेन्द्र तथैव सर्वाश्रमिभिश्च नित्यं महाविपत्तावपि विप्रवर्याः श्रीकाम्ययायेदु भजन्ति नित्यं श्रीब्रह्म रुद्रद्रयमादिदेवान् इहे वुञ्जन्ति मह च दुःखम् महापदकृष्ठभगन्धरादीन् नमन्ति ये वैष्णवान् ब्रह्म रुद्रवायुप्रतीकान्नैवदे विष्णुभक्ताः अभिप्रायं त्वत्र वक्ष्ये मुनीन्द्रापरं गोप्यं हृदि धार्यं हि तद्धि वायोप्रतीकम् पूज्यमेवेहविप्रा न ब्रह्मरुद्रादिप्रतीकमेव पूजाकाले देवदेवस्य विष्णोर्वायोप्रतीकं योग्यभागे निधाय अन्तर्गतं तस्य वायोर्हरिं च लक्ष्मीपतिं पूजयित्वा हि सम्यक् पश्चाद्वायोः सुप्रतीकं च सम्यग् निर्माल्यशेषेण हरेत्समर्चयेत् पृथक् च स्रग्धूपविलेपनादिपूजां प्रकुर्वन्ति च ये विमूढः तेषाम् दुःखमिह लोके परत्र भविष्यदेनात्र विचार्यमस्ति प्रायच्चित्तम् स्वस्ति विप्रा कथञ्चित्त कुर्वन्तु स्मरणम् नाम विष्णोः पाषण्डरुद्राधिकसम् प्रतिष्ठितान् अरेर्वायोः शङ्करस्य प्रतीकान् न मन्द ये फलबुद्ध्या विमूढास्तेषां बलं शाश्वतं दुःखमेव वायोप्रदीकं यदि विप्रवर्ह्यै प्रदिष्टिदं चेन्नमनं हि कार्यं नैवेद्यशेषेण हरेश्च विष्णो पूजा कृता चेन्न हि दोषले सः महान् मज्जनेर्महान् नामाङ्घ्रिभक्तो हनुमान् सदैव एवं विदित्वा परमं हरिं पुत्रं पुनर्मुख्य देवस्य वायोः नमस्कारो नान्यथा विप्रवर्य आधीयतां हृदि रहस्यं ये वैष्णव वैष्णवदा सभृत्या सर्वेऽपि ते सर्वदा विष्णुमेव न मन्द ये वै प्रतिपादयन्ति तथैव पुण्यानि च सात्विकानि न मन्द ये वासुदेवं हरिं च सम्यक् स्वचक्रिया प्रतिपादयन्ति प्रवृत्तिमार्गेण न पूजयन्ति ह्यापत्काले परदैवं तदन्यकम् ते वैष्णवा वैष्णवदासभृत्या अन्ये च सर्वे वैष्णवमात्रकाः स्मृताः उपक्रमैरुपसंहारस्य लिङ्गैर्हरिं गुरुं ह्यन्तरेणैव यन्ति तानेवाहुसत्पुराणानि विप्राक् कलौयुगेनाभ्यसूयन्ति सर्वे यतो हि तान्ये प्रतिपादयन्ति प्रवृत्तिधर्मान् स्वस्वर्णानुरूपान् अदो ह्यसूयन्ति सदा विमूढा कलौ हि विप्राक् न चास्ति विष्णो सदृशं च दैवतं न चास्ति वायो सदृशो गुरुश्च न चास्ति तीर्थं सदृशं विष्णो पद्याः न विष्णो भक्तेन समोऽस्ति भक्तः अन्यानि विष्णो प्रतिपादकानि सर्वाणि ते सात्विकानीदिजाहुः श्राव्याणि तान्येव मनुष्यलोके श्राव्याणि नान्यानि च दुःखदानि कलौ युगे सर्वपुराणमध्ये त्रीण्येव मुख्यानि हरिप्रियाणि मुख्यं पुराणं हि कलौ नृणां च श्रेयस्करं भागवतं पुराणं पूर्वं हि सृष्टिप्रतिपद्यतेऽत्र यत्रो भागवदं भागवतं परं स्मृतम् यस्मिन् पुराणे कथयन्ति सृष्टिं ह्यादौ विष्णोद् ब्रह्मरुद्रादिकानाम् नानार्थमेवं कथयन्ति विप्रमीचोच्चरूपं ज्ञानमाहुर्महान्तः तेनैवसिद्धं सिद्धं प्रवदन्ति सर्वं ह्यतः परं भागवतं ततः परं विष्णुपुराणमाहुस्ततः परं गारुडसंज्ञकं च त्रिण्येव मुख्या निकलौ नृणान्तु तथा विशेषो गारुडे किञ्चिदस्ति शृणुध्वं वैदं विशेषं च विप्रास्त्रियं शैर्युक्तं गारुडाख्यं पुराणम् आद्यांशम् वैकर्मकाण्डम् वदन्ति द्वितीयांशम् धर्मकाण्डम् तमाहुः तृतीयांशम् ब्रह्मकाण्डम् वदन्ति तेषाम् मध्ये त्वन्दिमोऽयम् वरिष्ठः तृतीयांश्रवणात् पुण्यमाहुस्तुल्यम् पुण्यम् भागवदस्य विप्राह तृतीयांशे पठिते वेदतुल्यम् फलम् भवेन्नात्र विचार्यमस्ति तृतीयांस्यश्रवणादेव विप्राफलं प्रोक्तं पठतोऽप्यर्थमेवं तृतीयांश्यश्रवणादर्थतश्च पुण्यं चाहुः पठतो वैदशांशं तदो वरं मस्य पुराणमाहुस्ततो वरं कूर्मपुराणमाहुः तथैव वैवायुपुराणमाहुस्त्रीण्येव चाहुः सात्विकानीधि लोके तत्रापि किञ्चिद्वेदितव्यम् भवे च पुराणशष्टे सत्त्वरूपे मुनीन्द्राः सत्त्वाधमे मास्य कौर्मे तथाहुर्वायुचाहुः सात्विकम् मध्यमम् च विष्णो पुराणम् भागवतम् पुराणम् सत्त्वोत्तमम् गारुडम् चाहुरार्याः स्कान्तम् पात्मम् वामनम् वैवरागम् तदाग्रेयम् भविष्यम् पर्वसृष्टौ एतान्याहुराजसानीतिविप्राक् तत्रैकदेश सात्विकस्तामसश्च रजप्राचुर्याद्राजसानिधि च हुश्राव्याणि नैदानि मुमुक्षुभिः सदा तेषां मध्ये सात्विकांशाश्च सन्धि तेषां श्रुतेर्गारुडीयम् फलं च ब्रह्माण्डलङ्गे ब्रह्म वैवर्तकं वै यदान्या हुष्टामसानि विप्रास्तत्रैकदेशः सात्विको राजसश्च श्रवाणि नैदानि मनुष्यलोके तत्त्वेच्छुभिस्तामसानित्यतो हि तेषु स्थिता सात्त्विकांशा अल्पान्युपुराणानि वदन्त्यष्टादशानि च विष्णुधर्मोत्तरं चैव मन्त्रं विष्णुधर्मोत्तरं चैव तन्त्रं भागवतं तथा तत्त्वसारं नारसिंहं वायुप्रोक्तं तथैव च तथा हंसपुराणं च षडेतानि मुनीश्वराः सात्विकान्येव जानीध्वं प्रायशो नात्र संशयः यदेषां श्रवणादेव गारूडार्थफलं श्रुतं भविष्योत्तरनामानां बृहन्नारदमेव च यमनारदसंवादं लघुनारदमेव च विनायकपुराणं च बृहद् ब्रह्माण्डमेव च एतानि राजसान्याहुश्रवणाद्भुक्तरुत्तमा गारुडात्पादतुल्यं च फलं चाहुर्मनीषिणः पुराणम् भागवतम् शैवं नन्दिप्रोक्तम् तथैव च पाशुपत्यं रैणुकं भैरवम् च तथैव च एतानि तामसान्याहुर्हरितत्वार्थवेदिनः एतेषां श्रवणाद्विप्रागाजुदाङ्क्रियर्धमेव च सर्वेष्वपि पुराणेषु श्रेष्ठं भागवतं स्मृतम् वेदैल्यस्तमपाठे श्रवणे च तदर्थकम् अर्धतश्रवणे चास्य पुण्यं दशगुणं स्मृतम् वक्तुं स्याद्विगुणं पुण्यं व्याख्यातिश्च तथाधिकम् अनन्दवेदैः साम्यमाहुर्महान्तभारान्महत्वात् भारतस्यापि विप्राः वेदोऽभ्योऽस्यत्वर्थतच्चाधिकत्वम् वदन्ति वै विष्णुरहस्य वेदिनः तत्स्रष्टाङ्गीतिकामा हुरार्यास्तथैव विष्णोर्नाम साहस्रकम् च तयोस्तत्र श्रवणाद्भारतस्य दशाधिकं फलमाहुर्महान्तः दैत्यात् सर्वविप्रकुलेषु भूत्वा कृते युगे भारते षट्सहस्यां निष्कास्य कांश्चिन्नवनिर्मितानां निवेशनं तत्र कुर्वन्ति नित्यं मत्वा हरिं भगवान् व्यासरूपी चक्रे तदा भागवतं पुराणं ज समाख्यायजवैष्णवं तत्ततः परं गारुडाख्यां गारुडाख्यं सचक्रे अतो हि गारुडं मुख्यं पुराणं शास्त्रसम्मतं गुडेन समं नास्ति विष्णुधर्मप्रदर्शने यथा सुराणां प्रवरो जनार्दनो यथायुधानां प्रवरः सुदर्शनं यथा श्वमेधप्रवरक्रदूनां चिन्नेषु भक्तेषु तथैव रुद्रः नदीषु गङ्गाज्जलजेषु पद्ममच्छिन्नभक्तेषु तथैव वायुः तथा पुराणेषु चकारुढं च मुख्यम् तदाहुर्हरितत्वदर्शने गारूढाख्यपुराणे तु प्रतिपाद्यो हरिस्मृतः अदो हरिर्नमस्कार्यो गम्यो योग्यो हरिस्मृतः भाग्यात्मकत्वाच्छ्रीदेव्या नमनं नदनुस्मृदम् परो नरोत्तमो वास साधकेशोऽपि च स्मृतः अदो नम्यो वायुरपि पुराणादौ द्विजोत्तमाः भारतीवाक्यरूपत्वान्नम्या वायोरनन्तरम् उपसाधको नरप्रोक्तो नम्य इत्यत्यदे सद्भिस्तारतम्येन सर्वदा अदो व्यासं नमस्कुर्याग्रन्थ करुधृत्वहेतुदः शौनक उवाच व्यासस्य नमनं ह्यन्दे कथं कार्यं महात्मनः अन्तेजवन्दने तस्य कारणं ब्रूहि सुव्रद सुत उवाच विष्णोरनन्तरं व्यासनमनं मुख्यमेव हि हरिरेव यतो व्यासो वाच्य वाच्यचक्रस्वरूपकः व्यासो नैव समत्वेन प्रोक्तो भगवदो हरेः तत्रापि कारणं वक्ष्ये सादरेण मुनीश्वराः व्यासस्तु कच्छिनऋषिपुराणे तामसे स्मृदः इति ज्ञानावलम्बेन दैत्या दैत्यानुगैः समाः प्रविशन्ति ह्यन्धतम इति त्वं ते नमस्कृतः यदिदम्बरमम् गोप्यम् हृदि धार्यम् न संशयः पराणाम् नम्यमेवोक्तम् प्रतिपाद्यम् यतोऽत्र हि समासव्यासभावाद्धि पराणाम् तत्प्रदीयते वास्तवं तं न जानीयुरुपजीव्यो यदो हरिः हरिर्व्यासस्त्वेक एव व्यासस्तु हरिवः स्मृतः उपजीव्यतदीशत्वे तयोरेव न संशयः ईशकोडिप्रविष्टत्वाच्छ्रियस्वामित्वमीरिदम् त्रयाणामुपजीव्यत्वात् सेव्यत्वात् स्वामिदास्मृताः वाय्वादीनां त्रयाणां च सेव्यत्वात् सेव्यदा स्मृता भूपारहरणे विष्णो प्रधानाङ्गं हि मारुधिः वाक्यरूपा भारतीदुद्वितीयाङ्गं स्मृता तृतीयाङ्गहरेशेषो ननम्या साम्यदे हरेः प्रतिपाद्या मुख्यतया नम्या येव समीचिताः अवान्तराश्च वाय्वाद्या ननम्यास्तेन ते स्मृताः भीष्मद्रोणादिनामानि भीमादिष्वेव मुख्यतः वाचकानि यदो नित्यं तन्नम्यास्ते मुनीश्वराः पराणामेव नम्यत्वं प्रतिपाद्यत्वमेव हि यदत् सर्वं मया ख्यातं किमन्यच्छ्रोतुमिच्छथ महापुराणे सुदशौनकसंवादे उत्तरखण्डे तृतीयांशे सात्विकादिपुराणविभागनम्यानम्य देवविभागादिविषयनिरूपणं नाम प्रथमोऽध्यायः ओम् अध्यायं टु शौनक उवाच कथम् ससर्ज भगवान् तत्तत्तत्त्वाभिमानिनः सृष्टिक्रमम् न जानामि देवानाम् ह्यन्तरम् मुने शौनकेनैव मुक्तस्तु सूतो वचनमब्रवीद सूत उवाच सम्यग्व्यवसिदा बुद्धिस्तव ब्रह्मर्षि सत्तमा। एवमेव कृतप्रस्रो हरौ तु गरुडेन वै यदुक्तवान् हरिस्तस्मै तद्वक्ष्यामितवानख गरुड उवाच सृष्टिं ब्रूहि महाभागसचिदानन्दविग्रह सृष्टौ ज्ञादे तवोत्कर्षो ज्ञातप्रायो भविष्यदि ब्रह्मादीनां तारतम्यज्ञानं मम भविष्यदि मोक्षोपायम्य सवोक्तमिदतरत्तस्य साधनं गरुडेनैव मुक्तस्तु कृष्णो वचनमब्रवीद श्रीकृष्ण उवाच मूलरूपे ह्यदो विष्णुत्वाद्विष्णुरव्ययः अवतारमिदं प्रोक्तं पूर्णत्वादेव सुव्रद अनेकोक्ये कदा प्राप्य संशेदे प्रलयायवै। तत्रापि च विशेषोऽस्ति भेदेन दर्शनद्वापि भेदाभेदयनदर्शनाद विष्णोर्गुणानां रूपाणां तदंगानां सुखादिनां तत्रैव दशनद्वाभिक्षिप्रमेव तमो व्रजेद पुरुषान्तरमारभ्यकल्पिता ये द्विजोत्तम हरिरूपास्तु ते ज्ञेया येकीभूता हि प्रलये समनुप्राप्ते जीवास यान्ति मामकाः विराड्रूपे हरे सन्ति जख्यने कथा। जक्ष्यणे भावं यगीभावं प्राप्नुवन्दि मूलेन प्रलये द्विजा बिम्बेन दुःस्वयं विष्णुरेगीभावं व्रजेद्यदि प्रतिबिम्बकथं जीवो भवेन्नारायणस्य च तदधीनस्तत्सदृश्यो हरेर्जीवो नसंशयः संशयः प्रतिबिम्बस्य शब्दार्थो ह्ययमेवमुदाहृदः तस्मात् कृष्णरामादिवच्चैवत्वे की भावो विवक्षितः बिम्बानां मूलरूपस्य भेदो नात्र विवक्षितः तत्रापि च विशेषोऽस्ति ज्ञा दव्यस्तत्त्वमित्युभिः एकांश्येन बिम्बैस्तु चैकीभावं व्रजन्ति ते एकांशेन दु जीवत्वे संस्थितानात्र संशयः बिम्बमूलं न जानन्ति ते जनाह्यसुरा स्मृताः एक अनेको भवति ह्यारादादर्शप्रतिबिम्बवद एवं वदन्ति ये, ये मूठास्तेऽपि यान्ति अधरं तमः उपाधिर्द्विधप्रोक्तस्वरूपो बाह्य एव च बाह्योपाधिर्लये यादिमुक्तावानस्य संस्थितिः सर्वोपाधिविनाशे हि प्रतिबिम्बकथं भवेत् छिद्रोपाह्यो ह्युपाधिस्तुमो े येऽप्यधिकारिणः दुःखरूपो ह्युपाधिस्तु तमसो येऽधिकारिणः मिश्ररूपो ह्युपाधिस्तु नित्यसंसारिणां मदः बाह्योपाधिर्लिङ्गदेह सर्वेषाम् यदे यस्मा तस्मादुःखी हरिस्वयम् तत्तद्दुःखस्वरूपत्वाद्दैत्यानां बिम्बरूपकः दैत्यस्थितानां बिम्बानां मूलरूपस्य वै प्रभोः परस्परं तथा भेदं ह्यन्तरं वा न चिन्तयेद तथा सीतादिरूपिणाम् अन्योन्यम् नाणुमात्रम् च भेदो बाह्यान्तरेऽपि च चिन्तनीयकथमपि ज्ञात्वा यान्त्यधरम् तमः प्रतिबिम्बस्थितो बिम्बस्त्रीरूपो ह्यस्ति सर्वदा प्रलये समनुप्राप्ते लक्ष्म्या सह खगोत्तम येकीभावम् नाप्नुवन्ति बिम्बेन सहसंस्थिताः बिम्बस्थितानां रूपाणां लक्ष्म्याश्च विनदासुदा भेदस्तु च शङ्कनीय यदा हिषेदे प्रलयार्णवे विभुर्जीवांश्च सर्वानुदरे निवेश्य मुक्तांश्च ब्रह्मेन्द्र मरुद्गणादीन् प्राप्तव्यमुक्त्रिंश्च सुतौ च संस्थितान् प्राप्तान्धकूपादिसमस्तजीवांस्तथैव प्राप्तव्यकलीनधापरान् तथैव नित्यं श्रुतिः संस्थितान् जनान चेदान ृक्षरूपादिजीवान् एवं जनरान् एवं जनान् जठरे सन्निधाय सम्यक्षे देह्यम्भसि वै सकल्पे लक्ष्मीस्तु स सर्ववेदात्मिका च भक्त्या हरौ नित्य संवर्धितापि अत्यादरं दर्शयदिवसाधु यीडे विष्णुं भक्ति संवर्धितापि चेष्टादिरूपेण तदा न किञ्चिदासीद्विना विष्णुमधश्रियं च पर्यङ्करूपेण बभूवदेवी वासस्वरूपेण रमाविरेचे सर्वं रमा सैव तथैव सैका देवी बभाषे त्वमुत्कृष्टः सर्वदेवो त्वमत्वान्नत्वत्समः कश्चिदेवाधिको वा त्वं ब्रह्म एको रुद्रो न विष्णवेव ब्रह्मशब्दो हि ह्यन्येष्वमुख्यो ब्रह्म रुद्रादिकेषु अनन्दगुणपूर्णत्वात् ब्रह्मेति हरिरुच्यते गुणादिपूर्णताभावान्नान्ये ब्रह्मेत्युदाहृदाः देशानन्द्यं गृणधकालदो नास्त्यानन्द्यं क्वापि देशे जकाले यदानन्द्यं किमु वक्तव्यमत्र गुणानन्द्यं नास्ति ब्रह्मादिगेषु यद्यप्यहं देश् यद्यप्यहं देशतः समस्तदा वासुदेवेन सार्धं तथापि गुणतो नास् यनन्तं ततो धर्मा गुणतोऽनन्ततश्च सन्धिश्रुदावविरुद्धाश्च देवे चिन्त्या ह्यचिन्त्या बहुधा देह्यनन्दाः अधो गुणांस्तव देवस्य विष्णोस्तोदुं सदा स्मो न हरे कदापि नाकं न च रुद्रो न दक्षकन्या च मेनकासुता न वै बीढौ जा न च वापुलोमजा न चेद्धवाहो न यमो न चान्यः न न नारदो ना नाभिभृगुर्वसिष्ठो न ना विघ्नपो नापि बल्यादयश्च न वै विराडो न विभीमशनिश्च न पुष्करो न पशेरुस्तथैव न किन्नरापिदरो नैव देव गन्धर्वमुख्या नापि वातुष्यसंज्ञाः न ना वै मानुषाश्च विष्णोर्न जानन्ति किमत्र जान्ये मत्तो धमः को जिगुणेन ब्रह्म समोहितस्य ब्रह्मणो माधरिष्व तौ वै विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषु योगे बुद्धौ समानौ संस्मृत संसृतौ मोक्षकाले परस्पराधार समन्वितौ समन्वितै च समन्वितौ च अन्नाभिमानम् ब्रह्मचाहुर्मुरारिम् जीवाभिमानम् वायु माहुर्महान्तः न शक्तोसौ ब्रह्मदेवो विवस्तुं वायुं विना संसृतवेव नित्यम् न विना माधरिश्वाज वस्तुमन्योन्यमाप्तिकालदो न्यूनता च यदा माकत्तस्तु अनियामकोऽभूत् ब्रह्माण्डान्दस्तुलसृष्टौ महात्मा तदा वायुर्नाशकद्वै महात्मा बाह्ये सृष्टौ कालभेदेन चास्ति सरस्वती भारति ब्रह्मणस्तु संवत्सरानन्तरं सम्बभूव यदा दशाब्दा समतीता महात्मा तदा वायुः समभूल्लोकपूज्यः किञ्चिन्न्यूनत्वं स्थूलसृष्टौ महात्मन्नैतावदा वा नयो सौम्यहानिः सरस्वती वत्सरात्सम्बभूवह्यनन्तरं ब्रह्मणो जन्मकालाद गिरः सकाश्चात्कालदोऽन्यो न दास्ति वायोस्तदा ह्यधमत्वे क्षधिक्का वायोरनन्तरम् वाणी ह्यभूत्संवत्सरात् परम् यावत् देहक्षयो भवेद् शेषस्त्विन्द्रो रुद्रयेदे त्रयश्च समाह्यते ज्ञानबलादिकेष्वपि तथापि तेषां कालतो न्यूनतास्ति कालोऽपि तेषां दिव्ये सहस्रवर्षम् अनन्तरुद्रो ब्रह्मवायु यथा वा तथा ज्ञेयो नैव तूलस्य सृष्टौ बाह्यसृष्टौ महात्मन् कालान्यूनत्वम् समया नैव चिन्त्यः तेषाम् सकाशाद्वाजुनी पार्वती च सौपर्णी नाम्नी तित्र यदा महात्मन् दशाब्देभ्योऽनन्तरं सम्बभूवुः सरस्वती भारतीवच्च बोध्या इन्द्रोवरो रुद्रभार्यादिकेभ्य एवं ज्ञानं सर्वदा देह्यमन्दं एवं ज्ञानं यस्य भावे च लोके स वैज्ञानी वेदवेद्यः एव न वैज्ञानित्यन्तरं यो न वेदसवेदवादीनजवेदपाठः वेदाक्षराणि यावन्दि पठितानि द्विजातिभिः तावन्दि हरिनामानि प्रियाणि च हरेः सदा मम स्वामी हरिर्नित्यं दासोऽहं सर्वदा हरेः ब्रह्माद्यादेवद सर्वे गुरवो मे यथा क्रमं ये तेषां च करि स्वामी वेद भारभरा भारभरप्रान्तस वैब्राह्मणगर्दभः ज्ञानाभिमानी वेदमानी उभौ तु परस्परं ह्यूच दुःसर्वदैव जलं वेदो यत्र वासो मुरारे चार्याणां सङ्गदोषाद्विजानां महापराधा सन्धिलोके महात्मन् सहस्रशतशकोटिशश्च अरिष्टस्तान् क्षमदे सर्वदैव नामत्र यस्मरणाद्वै कुपालुः सर्वापराधाद्रहितं दानमानयुर्युक्तं सदा तारतम्याच दृष्ट्वापराधम् तस्य विष्णुर्महात्मा आहाकारम् कुरुदे क्रोधबुद्ध्या उत्तिष्ठ गोविन्द सुवेदवेद्य सोव्यात्कृताख्यो मयि सम्यक् प्रसीद भो केशवोत्तिष्ठसुखस्वरूप सृष्टव्यये वर्तयितुम् समर्थः सृष्ट्वा ब्रह्माणं प्रेरयत् पूज्य सृष्टौ सृष्ट्वा रुद्रं प्रेरयेत् संहृतौ च प्राप्तव्ययोग्यान् ब्रह्मशेषादिदेवान् दृष्ट्वा दृष्ट्वा देहि मोक्षं च सम्यक हरे मुरारे स्वापहीनाद्यतिष्ठ कल्पादिकानन्दरज्ञान ीनाद सम्यग्दृष्ट्वा कर्मदृष्ट्या महात्मल्लब्धम् तमोदाहि दुःखस्वरूपम् दैत्यादिकान् दुःखमधीन्ह यस्मात् तमस्यन्धे सर्वथा चित्स्वरूपी तस्मादाहुर्दुःस्वरूपी हरिस्त्वम् दुःखस्वरूपात्वम् च दुःखी हरे त्वम् उत्तिष्ठनारायण वासुदेव ह्युत्तिष्ठ कृष्णाच्युतमाधवेदी उत्तिष्ठ वैकुण्ठदयार्द्रमूर्ते उत्तिष्ठलक्ष्मीश्च नमो नमस्ते उत्तिष्ठमध्वेश सरस्वतीश उत्तिष्ठ रुद्रेश तद्धाम्बिकेश उत्तिष्ठचन्द्रेश तथा शशी च विप्रेषभक्तेश गवेष नित्यम् शास्त्रप्रयोत्तिष्ठिप्रियस्त्वम् यजुप्रियोत्तिष्ठदिनादमूर्ते सामप्रियस्त्वम् च तथा मुरारे अथर्ववेदप्रिय सर्वदात्वम् गद्यप्रियस्त्वम् च पुराणमूर्ते स्तुदिप्रियोतिष्ठविचित्रमूर्ते सुगायनप्रीतिकरस्त्वमेव ह्युतिष्ठ शीघ्रं कमलापदिस्त्वम् एवं स्तुतो विष्णुरजपुराणो ह्यदित्वरावानुदो नित्य इति श्रीकारुडे महापुराणे तृतीयांस्ये ब्रह्मकाण्डे ब्रह्मविष्णु महेश्वरादिदेवतारम्य निरूपणम् नाम द्वितीयोऽध्यायः ओम् अध्यायम् त्रि श्रीकृष्ण उवाच बभूवेच्छा मम देवस्य विष्णोः स्रष्टुम् सृज्यान् मोक्षयोग्यांश्च मोक्तुम् इच्छाशक्तिः सर्वदैवास्ति विष्णोस्तथापि तद्व्याहरणम् च लौकिकम् तदाहरिर्जगृहे लौकिकम् च तमःपानम् तेन रूपेण चक्रे तद्रूपमाहुप्रकृतं वै तदज्ञा ह्यन्धं तमप्रविश्यन्त्येव अवतारा सर्वे अवतारामः विष्णो सर्वे पूर्णा प्रकीर्तिताः पूर्णं च तत्परं रूपं पूर्णात् पूर्णा समुद्गताः परावरत्वं तेषां तु व्यक्तिमात्रविशेषदः न देशकालसामर्थ्यात् पारावर्यम् कथञ्चन पूर्वरूपं च पूर्णं च पूर्णं पदवितारकम् रूपं तदात्मन्यादाय पूर्णमेवावशिष्यदे लौकिकव्यवहारोऽयम्भूभारक्षपणादिकः तस्य दृष्टिविना नान्यो जयकृष्णादिना क्वजिद तत्त्वे पीडा न कर्तव्या तया दुःखानि विन्दति अत्यन्तपीडना तस्य रोगस्तस्य न संशयः ज्ञातव्यां चेदुपीडादु कर्तव्या गुरुणा सह तमन्देवासिनम् चाकुः स य वचो गुरुस्मृतः ये कुर्वन्ति हरेस्तत्त्वविचारं तु परस्परं तावेव गुरुशिष्यौ तु विनतानन्दसंयुध हास्यं गर्तव्यं कुडिलं विना हर्षामर्षयुतशिष्यो उभौ तौ निरयं यादो यावदाचन्द्रतारकम् साक्षाद्धरि पुरुषपिङ्गलाक्षस्वमायायाम् गुणमय्याम् महात्मा स्वपुरुषेणैव सुमङ्गलेन अधातु वीर्यं भगवान् वीर्यवांश्च गरुड उवाच वीर्यस्वरूपं ब्रूहि मे वा वीर्ये त्वदीये संशयो मे विभाधि किं वीर्यमीशस्य स्वरूपभूतं किं वा विभिन्नं वद साधुवेत्सि श्रीकृष्ण उवाच यद्वीर्यमादत्त हरिस्वयं प्रभुर्मायाभिधायां विनदातनूज तद्वीर्यमाहुर्नृहरे स्वरूपम् विपश्चिदो निश्चिततत्त्वदर्शिनः भिन्नम् तः भिन्नम् तदाहु प्राकृतमेव चाहुस्वनाभिपद्माधिकवच्च बोध्यम् नैतावदा ज्ञानरूपस्य विष्णोर्न वीर्यहानिरिति भगवान् वासुदेवः सर्वत्र देशेऽपिज सर्वकाले सर्वार्थवाण्यदि न स्यात् भगेन्द्र तर्हिश्वरपुरुषो नैव स्याद अचिन्तवीर्यैश्चिन्त्यवीर्यैर्द्विरूपस्त्रीरूपमेकं पुरुषं तथा परम् उभे रूपे वीर्यवदीकगेन्द्र तयोरभेदचिन्तनीयो हि सम्यगो स्त्रीरूपवान् यदि न स्यात्खर्गेद्रस्त्रीणां स्त्रीरूपमस्माद्ब्रह्मजं चिन्तनीयं स्वरूपमे स्त्रीरूपवन्नैव विचिन्तनीयं नपुंसकं वस्य जन्यं हि विद्धि नपुंसकं नवैव ना स्वरूपभूतमदोहरौ नास्ति विचिन्तनीयं स्त्रीबिम्बभूदे हरिरूपे खगेन्द्रश्रीरूपमस्तीति विचिन्तनीयम् गरुड उवाच स्त्रिया स्त्रियश्च संयोगम् व्यर्थमाहुर्मनीषिणः स्त्रीरूपभूदे बिम्बे दुःस्त्रीरूपा सन्धि सर्वदा स्थितौ तत्र निमित्तम् च ब्रूहि कृष्ण मम प्रभो श्रीकृष्ण उवाच स्त्रीबिम्बभूतस्त्रीरूपे लक्ष्मीर्न स्यात् खगेश्वरा नित्या वियोगिनी देवी कथं स्यात् परमात्मनः हरेरनन्दरूपाणां स्त्रीरूपाणां खगेश्वर अनन्तानन्दरूपेण नित्यं शुश्रूषणे रदा अदो लक्ष्म्या वियोगस्तु सङ्गनीयः कथन्दन नारायणो नाम हरिस्वतन्त्रश्रिया विना नास्ति कदापि दार्क्ष्य हरेर्मुकुन्दस्य पदारविन्द्रे हरेर्मुकुन्दस्य पदारविन्दे शुश्रूषमणा परमादरेण हरिं विना श्रीरपि मोक्षेच्छुभिरेव वेद्यम् यस्या मधाधीर्यमनुक्षणं च सा मामिका चेन्द्रजालात्मिकेदि वदन्ति ये असुरामूढरूपा सर्वे मायानामप्रकृतिस्त्वे मासु सुसूक्ष्मरूपा तस्याभिमानश्रीरिति वेदितव्यो वीर्याधानं तत्र तेषां च मेलक आर्योन्मुखं मेलनं चाहुरार्या इदो रूपं नाहुराय्याश्च विष्णोः सानादिनित्या सत्यरूपा च विष्णोर्मिद्यारूपा सा कथं स्यात्कगेन्द्र सत्या तनुप्रकृतेस्तन्निगूढा सत्यत्वमाहुर्ववहारार्धरूपं व्यवहाररूपा सत्यदा चेत् प्रकृत्यास्तदा कथं स्याद्यदनादिभूता अनादिनित्या यदि न स्यात्खगेन्द्र सुसूक्ष्मरूपेण न सूक्ष्मेण रूपेण च कारणं स्यात्तर्हि प्रपञ्चस्य च कारणं वद अविद्यायावशतो विष्णुरेव नानारूपै दृश्यते विष्णुरेव शास्त्रज्ञानाश मेधिह्यविज्ञानसंशयो हरिणा शैक्यमेधि एवम्ब्रूषे यदि वाद खगेन्द्र वक्ष्येकम् ते तत्र युक्तिम् शृणुत्वम् सर्वज्ञरूपस्य हि मे मुरारे कथम् हरेर्कटदेह्यज्ञदा च सूर्ये यथा तमो नास्ति तथा नारायणे हरौ अज्ञानम् नास्ति पक्षीन्द्र कथम् तत्त्वम् ब्रवीष्यहो अदो नाहम् ब्राह्मणस्त्वादिकालादुपाधिसम्बन्धवशादज्ञता चेद सर्वज्ञासौ कुत्र पक्षीन्द्र विष्णुरल्पज्ञ जीवो ज्ञानशून्यश्च कुत्र विरुद्धयोश्चानयोः सर्वदैव संवादिष्यन्ति वेदाः देशे काले सर्वदा दुःखकीनो जगत्कर्ता पूर्णचक्रिः सदैव जीवः सदा स्वल्पकर्तास्ति पूर्णः संसाररूपे दुःखरूपे च नित्यम् विरुद्ध योश्चानयोरैक्यमाकुरीशस्य मायावशदो मायिनश्च ये वैष्णवा वैष्णवदास वस्यास्तेषां द्रोकं सर्वदा संचरेद्यः हरिप्रीतस्तेन भवेन्न नित्यमानन्दवृद्धिस्तेन भवेन्न मुक्तौ मायी सदा मायी भृत्यस्तथाभिभेदज्ञानान्निन्द्यते कार्यते च तेनापि तेषाम् दुःखवृद्धिर्भवेच्च ह्यथम् तमः पुनरावृत्तिहीनम् खगेन्द्रादप्रकृतिसूक्ष्मरूपा सा सदैव एवम् स्वयम् कालवायुवादिकानाम् पराणव सत्यरूपाश्च परानु पराणां लक्षणं वेदितव्यं ज्ञानेच्छुभिर्नन्यथा वेदितव्यम् पदार्थानां पार्थिवानां खगेन्द्र विशेषाणां चरमाख्यो विशेषः स एव स्यात् परमाणौ द्विजेन्द्र गरुड उवाच हे कृष्ण हे माधव सात्वताम् पदे पदार्थानाम् चरमांशः पराणो यदि प्रोक्तम् तत्र मे संशयोऽस्ति योऽद्यो विशेष सदु नांशयुक्तः योऽशयुक्तो सोन्द्यो विशेष एवम् भादि वचस्तु तथ्यम् श्रीकृष्ण उवाच य एव लोके संस्थिता मानुषास्तु विशेषाणाम् दर्शने शक्तियुक्ताः तथापि ते यस्य चांसित्वमेव वै वा नैव द्रष्टुम् समर्थाः तमेवाहुश्चरमांशं विशेषं ये चैवमाहुर्मुनयस्ते न जान्ये ये काणादा गौतमाध्याखगेन्द्र निरंशकं परमाणुं वदन्ति अनन्दांशैः संयुतत्वेऽपि तांश निरंशिनो भ्रान्तिदृष्ट्या वदन्ति तस्मात् पराणो परमाणुत्वमस्ति विनदागर्भजादा विनदा गर्भजाद पराणूनामेकदेशे कगेन्द्रतन्नोः सन्धिप्राणिनां राशयश्च प्रत्येकश सन्धिरूपाफरेश्च्यतश्च तत् यो वा त्वनीयान् परमस्य विष्णोः स एव रुहो महतो महीयान् तेषामन्योन्यं न विशेषोऽस्ति कश्चिदचिन्त्यरूपे च विचिन्तनीयः कालकोटिविहीनत्वं कालानन्द्यं विदुर्बुधाः देशकोटिविहीनत्वं देशानन्द्यं विदुर्बुधाः गुणानाम प्रमेयत्वे गुणानन्द्यं विदुर्बुधाः आनन्द्यम् त्रिविधम् नित्यम् हरेर्नान्यस्य कस्यचिद तस्य सर्वस्वरूपेषु चानन्द्यम् तु त्रिलक्षणम् तथाभिधेशतस्तस्य परिच्छेदोऽयुज्यते व्याप्ते परिच्छेदस्तदा व्याप्तेरेकरूपेऽपि युज्यदे तस्या भुदैश्वर्यं व्यवहारार्थमेव च गुणदपालतश्चैव परिच्छेदो न व्याप्तत्वं देशदोष्यस्ति सर्वभूदेशु यद्यपि न च भेद क्वचित्तस्य क्षणुमात्रेऽपियुज्यते तथापि विद्यतेऽनुत्वं तस्माद्वैश्वर्ययोगतः तस्माद्वद्भ्यवदारार्थं व्याप्तत्वं चाभिभ्यते यत्तस्य व्यापकं रूपं परं नारायणं विदुः अतश्च परमाणूनां पार्थिवानन्द्यवादिनां भेदपरस्परं ज्ञेयस्तदेशस्य महात्मनः जडेशयोर्जडानां च जीवानां च परस्परं तथैव जडजीवानां नित्यं भेदो जडेशयोः पञ्चभेदा इमे नित्यं सर्वावस्थासु सर्वशः एतादृश्यां तु मायां वीर्यमाधत्तवीर्यवान् पुरुषाख्यो हरितस्मात् त्रिगुणानसृजत्प्रभुः इति श्रीगारुडे महापुराणे ब्रह्मकाण्डे भगवद्वीर्यस्वरूपतादाधानद्वारकगुणत्रय सृष्टिजडेशभेदादिनिरूपणं नाम तृतीयोऽध्यायः ओम्